अब्रवीच तदा ब्रह्मा यक्ष्य से नाडवंदव्यष तो शचीपते नरनाऊ तौदेव विभावसो संप्रात मनुषे लोके कार्या दिवौकसाम् अर्जुनं वासुदेवं च यौ तौ भीमन्यते तावे ताव सहितावे हि खाण्डवस्य समीपतः तौ त्वं याचस्वसाहाय्येदाहार्थं खाण्डवस्य च ततो धक्ष्यसितं दावं रक्षितं त्रिदशैरपि तौतु सत्वानि सत्त्वानि सर्वाणि यत्नतो वारयिष्यतः देवराजञ्च सहितौ तत्र मे संशयः एतच्छ्रुत्वा तु वचनं त्वरितो हव्यवाहनः कृष्णपार्थावुपागं ययमर्थं त्वभ्यभाषत तन्ते कथितवानस्मि पूर्वमेव नृपोत्तम तच्छ्रुत्वा वचनं त्वग्नेर्बिभत्सुर्जातवेदसम् अब्रवीन्द्रपशार्दूलतत्कालसदृशं वचः दिधक्षुङ्खाण्डवं दावमकामस्य शतक्रतोः अर्जुन उवाच उत्तमास्त्राणि मे सन्ति दिव्यानि च बहूनि च यैरहं शक्नुयां योद्धुमपि वज्रधरान् बहून् धनुर्मेनास्ति भगवन् बाहुवीर्येण सम्मितं कुर्वत समरे यत्नं वेगं यद्विषहेन्मम शरैश्च मेऽर्थो बहुभिरक्षयैः क्षिप्रमस्यतः क्षिप्रमस्यतह नहि वोढुं रथः शक्तः शरान्मम यथेप्सितान् अश्वांश्च दिव्यानिच्छेयं पाण्डुरान् वातरं हसः रथञ्च मेघनिर्घोषं सूर्यप्रतिमते जसं तथा कृष्णस्य वीर्येण नायुधं विद्यते समं येन नागान्पिशाचांश्च निहन्यान् माधवो उपायं कर्मसिद्धौ च भगवन् वक्तुमर्हसि निवारयेयं येनेन्द्रं वर्षमाणं महावने पौरुषेण तु यत्कार्यं स्वपावक करणानि समर्थानि भगवन् दातु इति महाभारते दासीमहाते आदिपर्व खदाहपर्वणि अर्जुनासंवांश्यधतमोध्याय